अथ एकादशोऽध्यायः नारद उवाच पिता तात कथ्यमानाम् निबोध मे शक्यते यान निर्देष्टुम् रूपेति भारत पुरा राजन्नादित्यो भगवान् दिवः आगच्छन्मानुषम् लोकम् दिदृक्षुर्विगत क्लमः चरन्मानुषरूपेण सभां दृष्ट्वा स्वयं भुवः सतामकथयन् मह्यं ब्राह्मीं तत्त्वेन पाण्डवा अप्रमेयां सभां दिव्यां मानसीं भरतर्षभा अनिर्देश्यां प्रभावेणा सर्वभूतमनोरमां श्रुत्वा गुणानहं तस्याः सभायाः पाण्डवर्षभा दर्शनेत् सुस्तथा भगवन् द्रष्टुमिच्छामि पितामह सभां शुभाम् येन वा तपसा शक्त्या कर्मणा वापि गोपते औषधैर्वा तथा युक्तैरुत्तमापाशिनी तन्ममा चक्ष्व भगवन् पश्येयम् ताम् सभाम् यथा स तन्मम श्रुत्वा सहस्रां शुर्दिवाकरः प्रोवाच भरतः श्रेष्ठ व्रतम् ब्रह्मव्रतमुपास्व त्वम् प्रयतेनान्तरात्मना ततोऽहम् हिमवत्पृष्ठे समारब्धो महाव्रतम् ततः स भगवान् सूर्यो मामुपादाय वीर्यवान् आगच्छक्ताम् सभां ब्राह्मीम् विपाप्मा विगतक्लमः